सृष्ट प्राणोऽभिषतरम् तेन चेत् सङ्गमो मम किमन्यद् दुःखमधिकम् परमम् भुवि कौरवाः धृष्टद्युम्नो द्रोण मृत्युरिति विप्रथितौ वचः मद्वधाय श्रुतोऽप्यश लोके चाप्यतिविश्रुतः सोऽयन् नूनमनुप्राप्तस्त्वत्कृते उत्तमः त्वरितम् कुरुत श्रेयो नैतदेतावता कृतम् मुहूर्तम् यजध्वञ्चमः यज्ञैर्भोगानश्नि तदत्त च इतश्चतुर्दशे वर्षे महत्राप्यस्यथ वैषसम् त्रोणस्य वचनम् श्रुत्वा धृतराष्ट्रो ब्रवीदितम् संयगाः गुरुक्षत्ररूपावर्तय इती श्री महा भारते सभा श्रीमहाभारभापर्वि अूतपर्वि विदुरधृत राष्ट्रद्रोणवाक्ये अशीतितमोध्याय